चतुष्पञ्चाशत्तमोऽध्यायः सौतिरुवाच तत आहूय पुत्रम् स्वम् जरत्कारुर्भुजङ्गमा वासुकेर्नागराजस्य वचनादिदमब्रवीत् अहम् तव पितुः पुत्रभ्रात्रा दत्तानिमित्ततः कालः सचायम् सम्प्राप्तस्तत्कुरुष्व कथम् आस्तीकौ किम् निमित्तम् मम पितुर्दत्ता त्वम् मातुलेन मे तन्ममाचक्ष्वतत्त्वेन श्रुत्वा कर्तास्मि तत्तथा सौतिरुवाच तत आचष्टसा तस्मै बान्धवानाम् हितैषिणी भगिनी नागराजस्य जरत्कारुरविक्लवा जरत्कारुर्वाच पन्नगानामशेषाणाम् माता कद्रूरिति श्रुता तया शप्ता ऋषितया सुता यस्मान् निबोधत उच्चैश्रवासोश्वराजो यन्मिथ्या न मम विनतार्थाय पणिते दासी भावाय पुत्रका जनमे वो यज्ञे धक्ष्यत्यनिलसारथि तत्र पञ्चत्वमापन्नाः प्रेतलोकम् गमिष्यथ ताम् च सप्तवतीम् देवः साक्षाल्लोकपितामहः एवमस्त्विति तद्वाक्यम् प्रोवाचानुमुमोद च वासुकिश्चापि तच्छ्रुत्वा पितामहवचस्तदा वा अमृते मथिते तात देवाञ्छरणमीयिवान् सिद्धार्थाश्च सुराः सर्वे प्राप्यामृतमनुत्तमम् भ्रातरम् मे पुरस्कृत्य पितामहमुपागमन् ते तम् प्रसादयामासुः सुराः सर्वेऽब्जसम्भवम् राज्ञा वासुकिना सार्धम् शापोऽसौ न भवेदिति देवा ऊचुः वासुकिर्नागराजोऽयम् दुःखितो ज्ञातिकारणात् अभिशापः समातुस्तु भगवन्न भवेत्कथम् ब्रह्मोवाच जरत्कारुर्जरत्कारुम् जरत्कारु याम् भार्यां समवाप्स्यति तत्र जातो द्विजः शापन्मोक्षयिष्यति पन्नगान् एतच्छ्रुत्वा तु वचनम् वा सुखिः पन्नगोत्तमः पित्रे महात्मने गेवानागते काले तस्मात् त्वम् मय्य जायथा अयम् स कालः सम्प्राप्तो भयान्नस्त्रातुमर्हसि भ्रातरम् चापि ते तस्मात्त्रातुमर्हसि पावकात् नमोघम् यदहम् तव धीमते पित्रे दत्ता विमोक्षार्थम् कथम् वा पुत्रमन्यसे सौतिरुवाच एवमुक्तस्तथेत्युक्त्वा सास्तीको मातरम् तदा अब्रवीद्दुःखसन्तप्तम् वासुकिम् जीवयन्निव अहम् त्वाम् मोक्षयिष्यामि वासुके पन्नगोत्तम तस्माच्छापान्महासत्त्वसत्यमेतद्ब्रवीमिते भव स्वस्थमनानागनहिते विद्यते भयम् प्रयतिष्ये तथा राजन्यथा श्रेयो भविष्यति न मे वागनृतम् प्राहस्वैरेष्वपि कृतोऽन्यथा तम् वै नृपवरम् गत्वा दीक्षितम् जनमे जयम् वाग्भिर्मङ्गलयुक्ताभिस्तोषयिष्येद्यमातुल यथा स यज्ञो नृपतेर्निवर्तिष्यति सत्तम स सम्भावय नागेन्द्र सर्वमहामते न ते मयि मनो वासुकिरुवाच आस्तीकपरिघूर्णामि हृदयम् मे विधीर्यते दिशो न प्रतिजानामि ब्रह्मदण्डनिपीडितः आस्तीक उवाच न सन्तापस्त्वया कार्यः कथञ्चित्पन्नगोत्तम प्रदीप्ताग्नेः समुत्पन्नम् नाशयिष्यामि भयम् ब्रह्मदण्डम् महाघोरं कालाग्निसमतेजसम् नाशयिष्यामि मात्रत्वम् भयम् कार्षीः कथञ्चन सौतिरुवाच ततः स वासुकेर्घोरमपनीय मनोज्वरम् आधाय जगामत्वरितो भृशम् जनमे जयस्य तम् यज्ञम् सर्वैः समुदितम् गुणैः मोक्षाय भुजगेन्द्राणामास्तीको द्विजसत्तमः स गत्वा पश्यदास्तीको यज्ञायतनमुत्तमम् वृतम् सदस्यैर्बहुभिः सूर्यव निशमप्रभैः स तत्र वारितो द्वाःस्थैः स प्राप्यय्ञातनम वरिष्ठ द्वजोत्म पुण्यता वरिष्ठ महाभारते आदिपर्वणि आदिपर्ण आस्तीकपर्वि सर्पसत्रे आस्तीक आगमने चुष्पचाशत्तमध्याय